अथ श्रीमहाभारते आदिपर्वणि सप्ताधिकद्विशततमोऽध्यायः जनमेजय उवाच एवं संप्राप्य राज्यं तदिन्द्रप्रस्थं तपोधन अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः सर्व एव महासत्त्वा मम पूर्वपितामहाः द्रौपदी धर्मपत्नी च कथं तान्वर्तत कथं च पञ्चकृष्णायाम् एकस्यान्ते न राधिपाः वर्तमानामहाभागानाभिद्यन्तपरस्परं श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः वेमिरेखाण्डवप्रस्थे प्राप्तराज्याः परं तपाः प्राप्यराज्यं महातेजाः सत्यसन्धो युधिष्ठिरः पालयामास धर्मेण पृथिवीं भ्रातृभिः जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः मुदं परमिकां प्राप्तास्तन्नोषुः कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः आसां चक्रुर्महार्हेषु पार्थिवेश्वासनेषु च अथ तेषु पविष्टेषु सर्वेष्वेव महात्मसु नारदस्त्वथ देवर्षिराजगामयदृच्छया पथानक्षत्रजुष्टेन सुपर्णचरितेन च चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः नभःस्थलेन दिव्येन दुर्लभेन तपस्विनाम् भूतार्चितो भूतधरं राष्ट्रं नगरभूषितम् अवेक्षमाणो द्युतिमानाजगाममहातपाः सर्ववेदान्तगोविप्रः सर्वविद्यासुपारगः परेण तपसा युक्तो ब्राह्मेण तपसावृतः नये नीतौ च निरतो महामुनिः परात्परतरं प्राप्तो धर्मात् समभिजग्मिवान् भावितात्मा गतरजाः शान्तो मृदुरुजुर्द्विजः धर्मेणाधिगतः सर्वैर्देव दानवमानुषैः अक्षीणवृत्तधर्मश्च संसारभयवर्जितः सर्वथा कृतमर्यादो वेदेषु विविधेषु च रुक्सामयजुषां वेत्ता न्यायवृत्तान्तकोविदः ऋजुरारोहवाचुक्लोद्भूयिष्ठपथिको नघः श्लक्ष्णया शिखौ योपेतः सम्पन्नः परमत्विष अवदाते च सूक्ष्मे च दिव्ये चरुचिरे शुभे महेन्द्रदत्ते महति बिभ्रत्परमवाससि प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमं भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः